ॐ श्री परमात्मने नमः श्रीमन्महाभारतम् वनपर्वणि अरण्यपर्वणि प्रथमोऽध्यायः नारायणम् नमस्कृत्य नरञ्जैव नरोत्तमम् देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् जनमे जय उवाच एवम् द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः भार्तराष्ट्रैः सहा मात्यैर्निकृत्या द्विजसत्तम भाविताः पुरुषा वाचः सृजद्भिर्वैरमुत्तमम् किम कुर्वत कौरव्या मम पूर्वपितामहाः कथञ्चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः वने विजह्निरेपार्थाः शक्रप्रतिम तेजसः केवैतानन्ववर्तन्त प्राप्तान् व्यसनमुत्तमम् किमाचाराः किमाहाराः क्व च कथञ्च द्वादश समा महामुने व्यतियुर्ब्राह्मणः श्रेष्ठ शूराणामरिघातिनाम् कथञ्च राजपुत्री सा प्रवरा सर्वयोषिताम् पतिव्रता महाभागा सततम् सत्यवादिनी वनवासमदुःखार्हा दारुणम् प्रत्यपद्यत एतदाचक्ष्व मे सर्वम् विस्तरेण तपोधन श्रोतुमिच्छामि चरितम् भूरि द्रविण तेजसाम् कथ्यमानम् त्वया विप्रपरम् कौतूहलम् हि मे वैशम्पायन उवाच एवम् द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः धार्तराष्ट्रैः सह मात्यैर्निर्ययुर्गज साह्वयात् वर्धमानपुरद्वारात् अभिनिष्क्रम्य पाण्डवाः उदङ्मुखाः शस्त्रभृतः सह कृष्णया